धर्मप्रश्नमतो ब्रूयादार्यः सत्येन मानवः विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः विकर्णेन यथा प्रज्ञामुक्तः प्रश्नो नराधिपाः भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति यो हि प्रश्नं न विब्रूया अनृते वा फलावाप्तिस्तस्यास्वर्ध्वं समश्नुते यः पुनर्वर्तितं भ्रूयाद्धर्मदर्शी सभाङ्गतः अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः अत्राप्युदाहरन्ती ममितिहासं पुरातनम् प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च प्रह्लादो नाम दैत्यीन्द्रस्तस्य पुत्रोऽविचनः कन्याहेतोराङ्गिरसं सुधन्वानोपाद्रवत् अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा तयोर्देवनमत्रासी प्राणयोरिति न श्रुतं तयोः प्रश्नविवादोऽभूत् प्रह्लादं तावपृच्छताम् ज्यायान् क आवयोरेकः प्रश्नं प्रब्रूहि मा सवै स वैविवदनाद्भीतः विलोकयन् तं सुधन्वा ब्रवीत् क्रुद्धो ब्रह्मदण्ड इव यदि वै वक्ष्यसि मृषा प्रह्लादाथनवक्ष्यसि शतधाते शिरो वज्री वज्रेण प्रहरिष्यति